ॐ ध्यायामोदपलावकुण्टनवधीं तेजोमयीं नैष्ठिकीं स्निग्धापाङ्गविलोकिनीं भगवतीं मन्धस्मितश्रीमुखीं वात्सल्यामृतवर्षिणीं सुमधुरं सङ्गीर्तनालापिनीं श्यामाङ्गीं मधुसिक्तसूक्तिम् अमृतानन्दात्मिकाम् ईश्वरीम् ॐ अमृतेश्वर्यै नमः ॐ अमृतेश्वर्यै नमः ॐ अमृतेश्वर्य ॐ प्रणाना आम् सरस्वती लघुन्यास टुदर् ऐ न्लोली आत्मानं वीरुद्ररूपं सुदुधसङ्काशं नेत्रं वज्रपक्षम गङ्गारं दशभुजं वाभरणभूषितम् नीलग्रीजम् कमण्डल्वक्षसूक्षणाधारिणम् शूलपाण्यपाणि ज्वलन्तम् मङ्गलचामुच्योदधारिणम् वृषस्कन्धसमारूढम् अमृतेनाभुतम् शान्तम् दिग्तेवतासमायुक्तम् सुरासुरनकृतम् नित्यम् च शाश्वतम् रुध्र्वमक्षरम् सर्वव्याविनविं वैविश्व एवं ध्या प्रजनने ब्रह्मा तिष्ठतु पादयोर्माधु तिष्ठतु हस्तयोर्हरस्तिष्ठतु बाह्वोरिन्द्रतु चटरे ृदये शिवस्तिष्ठतु कण्ठे वसवस्तिष्ठन्तु वक्त्रे सरस्वतीतिष्ठतु नासिकयोर्वायुस्तिष्ठतु नयनयोश्चन्द्रादि कर्णयोरश्विनोतिष्ठेताम् ललाडे रुद्रास्तिष्ठन्तु ्यादित्या शिरसि महादेवस्तिष्ठतु शिखायां वा पार्श्वयोः शिवाशङ्करो तिष्ठेताम् सर्वतो वायुस्तिष्ठतु ततो बहिः सर्वतो सर्वेष्वङ्गेषु आस्थानम् सर्वान् महाजनान् रक्षन्तु अग्निर्मे काचित् ृदये कृदयं मयि अहमृते अमृतम् ब्रह्मणि वायुर्मे प्राणे श्रुतः प्राणोहृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि सूर्यो मे चक्षुषी श्रुतः चक्षुर्हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि चन्द्रमा मे मनसि श्रृतः मनोहृदये हृदयं मयि अमृतं ब्रह्मणि ो मे श्रोत्रे श्रोत्रघुं हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि आपो मे रेतसीलाः त्रेतो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि पृथिवी मे शरीरे स्थादये कृतशं मयि अहमृते अमृतं ब्रह्मणि ओषधिवनस्पयो सोमस्मि लोमानि हृदये कृतयं अहमृते अमृतम् ब्रह्मणि इन्द्रो मे फले श्रितः अहमृते अमृतं ब्रह्मणि परझञ्जो मे मूर्ध्नि श्रुतः मूर्धाहृदये मृतं ब्रह्मणि ईशानोमि मन्यो श्रुतः मन्यु श्रुतये कृतयं मयि अहमृते अमृतं ब्रह्मणि आत्मात्मनि श्रुतः ृदये हृदयम् मये अहममृदे अमृतम् ब्रह्मणि पुनर्म आत्मा पुनरायुरागात् पुनः प्राणः पुनराकूदमागात् वैश्वानुरोश्मिभिर्वा प्रधानः डिस् ओके विल् स्टार्ट् वित् द नेक्स्ट् थिङ्ग् ओके से वन्स् यु गै से ट्वैस् ओके अस्य श्रीरुद्राध्यायप्रश्नमहामन्त्रस्य रुद्राध्याय अस्य श्रीरुद्राध्याय प्रश्नमहामन्त्रस्य अस्य श्री रुद्राध्याय प्रश्नमहामन्त्रस्य can you try that once together that uh... ashi sri rudra ddaya prashna maha mantra ashi sri rudra ddaya prashna maha mantra is everybody okay with that yes okay aghora rishi aghora rishi सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः रूपो योषः परमपुरुषः स एष रुद्रो देवता स एष रुद्र एष रुद्रो देवता सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता विसर्ग इन् ह् इस् इष करेक्ट् इट् बिकम् अौण्ड् ओके द विसर्ग इन्फ्रण्ट् आफ़् अर् इल् बिकम् अौण्ड् सो इ संघर्षणमूर्तिस्वरूपो यो सा वादित्य परमपुरुष एष रुद्रो देवता परमपुरुष इम्स् डबुल् सकार इण्टु से यु के से परमपुरुष पुरुष स एषि इट् इस् डबुल् सकार इस् मच् इो परमपुरुष स एष रुद्रो देवता इस् मच्दं परमपुरुष स एष रुद्रो देवदाके सो दोस् आर् द सन्धिकृतं सो संवेर् यु हव् टु सी दोस् आफ़् देटर्स् बिफोर् आफ्टर् चित्रे सो लेट् डू दिस् वन्स् टुगेदर् ओके दर्षण मूर्ति इल् देवद ओके वन् टु त्री संकर्षूर्ति रुषेद is all okay for everybody yeah yes yeah. yeah. uh, namo shivaye divijam namo shivaye divijam namo shivaye divijam shivataraye thi di shaktihi shivataraye thi shaktihi shivataraye maye shaktinh श्री साम्ब सदा शिवप्रसादसिद्ध्यर्थे च पे विनियोगः श्री साम्ब सदा शिवप्रसादसिद्ध्यर्थे विनियोगः Shall we try once from the beginning? श्रीप्रसाद्रै वन् फ्रम् बिगिनिङ्ग् अस्य श्री टिल् योगः टिल्स् ओके टुगेदर् वन् टु त्री अस्य श्रीरुदुरायं कृष्णमहामन्त्रस्य घोरी अनुष्टुच्छन्तः सङ्कर्ष नोद्यपि परमपुरुषे नमः शिवायैतीयं शिवतरायै शक्तिः तिलकम् ईशामं बंदरादात् स्वप्रसादात् तुष्टे जीवो गहः डार ओके फॉर एवरीबॉडी दैट पैराग्राफ इज मोस्ट ऑफ देम आर नोन वर्ड्स बट इज जस्ट पुट टुगेदर टुगेदर सम टाइम्स दैट्स ऑल राइट नोबडी इज हैविंग एनी ट्रबल राइट नो ओके लेट्स गो फॉरवर्ड 11 अग्निहोत्र दर्श्यपूर्णमासात्मने तर्जनीभ्याम् नमः चातुर्मास्यात्मने मध्यमाभ्याम् निरूढपशुबन्धात्मने अनामिकाभ्याम् ज्योतिष्टोमात्मनेकनिष्ठिकाभ्याम् नमः सर्वकृत्वात्मने करतलकरपृष्ठाभ्याम् नमः ने करफलकरपृष्टाभ्यामः सर्वकृत्वा अग्निहोत्रात्मने हृदयाय नमः अग्निहन्होत्राय नमः अग्निहोत्रात्मने हृदयाय नमः दर्श पूर्णमासात्मने शिरसे स्वाहा चादुर्मास्यात्मने शिखाय वषटाय निरूढपशुबन्धात्मने कवचाय हुम्पशुभन्धात्मनेय ज्योतिष्टोमात्मने नेत्रयाय वौषट् सर्वकृत्वात्मने अस्त्राय फत्वात्मने सर्वकृत्वात्मने अस्त्राय पठ बूर भुवस्वर ओमिदिधभंधाः बूर भुवस्वर ओमिदिधभंधाः बूर भुवस्वर ओमिदिधभंधाः Is that okay? Shall we try once together? ओम अगन्होत्रात मने Starting there. Uh, uh, hari, one question. Yeah. In the previous paragraph, the, right. Right. जोतिष तो मात मने अदकों जोंचिध Can we just okay. Ah, correct. Okay. Okay. Okay. So then say say say say once you say once once once. you you the whole thing and we'll we'll try again after, okay? so we'll, Om Agnihotra okay? Okay, Fine. निष्ठिकाभ्यां नमः अदेव अङ्गुष्ठाभ्यां नमः ङ्कुष्टाभ्याम् दर्शपूर्णमासात्मने तर्जनीभ्याम् नमः चातुर्मास्यात्मने मध्यमाभ्याम् नमः चातुर्मास्यात्मने मध्यमाभ्याम् निरूढपशुबन्धात्मने अनामिकाभ्याम् नमः ज्योतिष्टोमात्मने कनिष्ठिकाभ्याम् सर्वक्रत्वात्मने करतलकरपृष्ठाभ्याम् नमः ृष्टा अग्निहोत्रात्मने हृदयाय नमः अग्निहोत्रात्मने हृदयाय दर्शपूर्णमासात्मने शिरसे स्वाहा दर्शपूर्णमासात्मने शिरसे स्वाहा चादुर्मास्यात्मने शिखायै वषट् चातुर्मास्यात्मने निरूढपशुबन्धात्मने कवचायुम् ज्योतिष्टोमात्मने नेत्रयाय वौषट् ज्योतिष्ठण्ड् इट्स् अस्कृतं दिस् इस् एफ् सौण्ड् विल् बी टर् एफ् सो It is is Bha, okay? So no pa, pha, okay? In Ch in Hindi, the, because of of of Urdu influence, a a a lot lot comes. Okay? Mm -hmm. uh, Farsi and things like that. So in, uh, Sanskrit, it's like that. Ah. with a, it's P a lot of air coming Maha, इट् इस् हिन्दीस् उर्दू इन् लैक् संस्कृत महाप्राण फे भूर्भुवस्वरोमि Shall we try it together from the beginning, Om, or Asya Sri Rudradhyaya till, till this? Yeah, sure, we can try. Okay. One, two, three. अस्य श्रीरुद्राध्याय स्नमहामात्रस्य अघोरश्रिः अनुष्टुश सङ्कर्षणरूपो परमपुरुषस्थ रुद्रो देवस्वा नमः शिवायै शिवतरिवती शक्तिः श्रीशाम्बसतीर्थे होत्रात्मने अंगुष्ठाभ्यां नमः नर्शपूर्णमात्मने तर्जनीभ्यां नमः चादुर्मास्यात्मने मध्यमाभ्यां नमः निरूढपशुबन्धुमात्मने ज्योतिष्टोमात्मनेकाक्षिनात्मने अग्निवक्त्रात्मने हृदयामः दर्शपूर्णमानात्मने शिरसेवि निरूढवशुबन्धो सर्वं ट्रै इन् on their own i mentioned very nasal today that's okay i mean it's uh, <coughs> at least if you get most okay. of the thing is okay it's just uh, don't worry okay. about making mistakes okay okay let me try iniki ulad mattadalla asir sir i, yeah, I think we probably don't want to go further because it slipped longer right the dhyanam is yeah, like yeah. Uh, You you, can can probably probably do maybe four lines if if try. try try. try. try. So let's this once nobody wants to I Let me give it a Sure. Rudradhyaya अस्य श्री रुद्राध्याय प्रश्नमहामन्त्रस्य अघोरऋषिः अनुष्टुप्छन्दः संकर्षणमूर्तिस्वरूपो योसावादि परमपुरुष स एष देवता नमः शिवायेति बीजम् शिवतरायेति शक्तिः महादेवायेति कीलकम् श्रीसाम्बसदाशिवप्रसादसिद्ध्यर्थे जपे विनियोगः ओम् अग्निहोत्रात्मने अङ्गुष्ठाभ्याम् नमः दर्शपूर्णमासात्मने तर्जनीभ्याम् नमः चातुर्मास्यात्मने मध्यमाभ्याम् नमः निरूढपशुबन्धात्मने अनामिकाभ्याम् नमः ज्योतिष्टोमात्मने कनिष्ठिकाभ्याम् नमः सर्वकृत्वात्मने करतलकरपृष्ठाभ्याम् नमः अग्निहोत्रात्मने हृदयाय नमः दर्शपूर्णमासात्मने शिरसे स्वाहा चातुर्मास्यात्मने शिकायै वर्षट् निरूढपशुबन्धात्मने कवचाय हुं ज्योतिष्टोमात्मने नेत्रयाय वौषट् सर्वकृता सर्वय फट् भूर्भुव सुव Rho Mithi Vikbandah Good. Very good. Only thing is Anushtup Chhandah. There is a, the, the, a... Chha is a Mahapraana Chha. Okay? That's all. Okay? Aabriya. You will like chha and chha and chhandan Chha put up here. No. That's not right. Anushtup Chhandah. Right? No. Oh. It's a chha. Chhatri Chha. Chha Chha. Okay. Uh, chhatri. Chhatri got Chha. Yeah. Chha. Okay. Oh. Yeah. I, I didn't know you had... The, when you pronounced it, I knew there was... A, you said Chha. So... ीरुद्राध्याय प्रश्न महामन्त्रस्य अघोरषिः अनुष्टुप्छन्दः सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता नमः शिवायेति बीजम् शिवतरायेति शक्तिः महादेवायेति किलकम् कीलकम् की श्रीसाम्बसदा शिवप्रसादसिद्ध्यर्थे जपे अग्निहोत्रात्मने अङ्गुष्टाभ्याम् नमः दर्शपूर्णमासात्मने तर्जनीभ्याम् नमः दर्शपूर्णमासात्मने तर्जनीभ्याम् दर्शपूर्णमासात्मने तर्जनीभ्याम् नमः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 निरूढपशुबन्धात्मने कवचाय हुम् ज्योतिष्टोमात्मने नेत्रयाय वौषट् सर्वकृत्वात्मने अस्त्रायुस्वरोमिति दिग्बन्धु सो द सेम् हेण्ड् आक्षन् फ़र् वाट् ऐ हव् डन् बिफोर् ऐ कुड् डु फार् दिस् आल्सो Hmm. So, um, uh, shall we try the Dhyanam, uh, maybe the first four lines, it might be, let's see if yeah, we can do it, okay Are you sure? We can, we, we are like, we've got, oh maybe another 15 minutes we have, right? Okay Yeah, a few minutes we'll try, if it uh, works, it okay. works, otherwise it's okay, okay. Dhyanam avatala nabhastalaantabhuvana brahmandama vispurata It's tough, let me know, okay कट् हाफ्के मेबिव् टु ओके आपाताल नभस्थलान्त आपाताल नभस्थलान्त आपाताल नभस्थलान्त भुवन ब्रह्माण्ड भुवन ब्रह्माण्ड भुवन ब्रह्माण्ड मा विस्फुरत् फुरत मा विस्फुरत आ पाताल न आ पाताल न आ पाताल नभस्तन्त भुवन ब्रह्माण्ड मा ब्रह्माण्ड मा फुरत आपाताल नभस्थलान्द भुवन ब्रह्माण्ड मा विस्फुरत् आपाताल नभस्थलान्द भुवन ब्रह्माण्ड मा विस्फुरत् ज्योतिस्पालि विलसत् लिङ्गमौलि विलसत् लिङ्गमौलि विलसत् पूर्णेन्दुवान्तामृतैः पूर्णेन्दुवान्तामृतैः पूर्णेन्दुवान् तामृतैः अस्तो काप्लुतमेकमीशमनिशम् <Hyundai> नुवाकाञ्जपन् रुद्रानुवा काञ्जपन् रुद्रानुवाकाञ्जपन् ध्याये दीप्सिदसिद्धये ध्रुवपदं ध्रुव ध्रुवपदं विप्रोभिषिञ्चे शिवम् विप्रोषिञ्चे चिव शिवम् शिवम् अवषिञ्चे शिवं न कुटुति सन्धिकम् विप्रोभिषिञ्चेच्छिवम्बेम् सेकेण्ड् चकार विल्कम् बिफोर् देस् एस् मोट् चकार फस्ट् चकार आल्सो विप्रोभि ध्रुवं ध्रुवं से वन्ट् रिपीट् भस्तभुवन ब्रह्माण्डमाविस्फुरत् आपा ज्योतिस्फाटिगलिङ्गमौलिविलसत्पूर्णेन्दुवान्दामृतैः ज्योतिस्फाटिकलिङ्गलिङ्गमौलिविलसत्पूर्णेन्दुवान्दामृतैः अस्तोकाप्लुतमेकमीषमनिषम् रुद्रानुवाकाञ्जभन् ध्याये दीप्सितसिद्धये ध्रुवपदम् विप्रोभिषिञ्झेच्छिवम् Shall we try together? Everybody is okay? Yeah. डिस् ओके ओके वन् टु त्रि आपाण्ड भुवन ब्रह्माण्डेश्वर अस्तु ध्याये इज् इत् आ इस् इ आपाताल और् apataala is la okay oh, okay is written apataala is not padalam right it is uh, apataala it is written taala in one of this okay no, it, taala look look the, okay. correct uh, devanagari thing okay it's apataala and its mouli it's not mouli mouli adu uh, adu uh, okay wo adum mouli oh. yeah. so these are the some there is a lakara in sanskritam but you know, it's it knows agnimile purohita mitkam so there is a lakara not uh -huh. only in Tamil uh -huh. Malayalam, but there is also Lakara in, in Sanskrit also. Yeah, that uh, circle, the eight lines. Correct. It's line, like infinity, yeah. infinity with infinity. a thing. Right. Yeah, okay. So, it is Aapa, Taala, okay? Taala. Taala. Taala. Taala. Taala, exactly. So, shall we do once from the beginning, Asya Sri till the Prohibition uh, Cheshivam, once together? Uh, why don't we do this? Um, uh, Um, hari like ah. only uh, rest of us can mute mm -hmm. so that people who are listening to the recording they will only listen to you okay gavin yeah, we will we we'll chant along but i think then it will be good for uh, when we listen to the recording again because there is overlap and time lag and all these things okay sure no problem is that okay together we yes, fine with me okay i'm muting now but i will continue as soon as you talk okay sure अस्य श्रीरुद्राध्यायप्रश्नमहामन्त्रस्य अघोरऋषिः अनुष्टुप्छन्तः सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता नमः शिवा येदि बीजम् शिवतरायेदि शक्तिः महादेवा येदि कीलकम् श्रीसाम्बसदाशिवप्रसादसिद्ध्यर्थे जपे विनियोगः ओम् अग्निहोत्रात्मनेऽङ्गुष्टाभ्याम् नमः दर्शपूर्णमासात्मने तर्जनीभ्याम् नमः चातुर्मास्यात्मने मध्यमाभ्याम् नमः निरूढपशुबन्धात्मने अनामिकाभ्याम् नमः ज्योतिष्टोमात्मने कनिष्ठिकाभ्याम् नमः सर्वक्रत्वात्मने करतलकरपृष्ठाभ्याम् नमः अग्निहोत्रात्मने हृदयाय नमः दर्शपूर्णमासात्मने शिरसे स्वाहा चादुर्मास्यात्मने शिखायै वषट् निरूढपशुबन्धात्मने कवचाय हुम् ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् सर्वक्रत्वात्मने अस्त्राय फट् भूर्भुवस्वरोमिति दिग्बन्धः ध्यानम् आपातालनभस्तलान्दभुवनब्रह्माण्डमाविस्फुरत् ज्योतिस्फाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतैः प्लुतमेगमीशमनिशं रुद्रानुवाकाञ्झपन् ध्याये दीप्सितसिद्धये ध्रुवपदं विप्रोभिषिञ्चेच्छिवम्बडि सो प्रो स्टाप्स्टाप् बिका इ end of one sentence also, then we'll start with yeah. the rest, uh, next class. Okay. Okay. Uh, let's do the Mangra slogans, Sarve Bhavantu, okay? Um, oh, no, actually, uh, what do you say? Loka Samastaha. Loka Ha Samastaha, thank you. Om Loka Ha Samastaha Sukhino Bhavantu Loka Ha Samastaha Sukhino Bhavantu ीभ्यो नमः हरिः ओ